वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुं संरक्ष्यमाणान् पार्थेण त्रिदशानिव वज्रिणा अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविश धृतराष्ट्र उवाच अभिषेकस्य सम्भारान् क्षत्तरानयमाचिरम् अभिषिक्तं करिष्यामि अद्य वै ब्राह्मणा नैगमश्रेष्ठाः श्रेणीमुख्याश्च सर्वशः आहूयन्तां प्रकृतयो बान्धवाश्च विशेषतः पुण्याहं वाच्यतां तात गोसहस्रं तु दीयताम् ग्राममुख्याश्च विप्रेभ्यो दीयन्तां सह दक्षिणाः अङ्गदेमुकुटं हस्ताभरणमानय मुक्तावलीश्च निष्कादीन निष्कादीन् कुण्डलानि च कटिबन्धश्च सूत्रम् च तथोदरनिबन्धनम् अष्टोत्तरसहस्रम् तु ब्राह्मणाधिष्ठिता गजाः शीघ्रमानयन्तु पुरोहितैः अभिषेकोदकक्लिन्नम् सर्वाभरणभूषितम् औपवह्योपरिगतम् दिव्यचामरवीजितम् सुवर्णमणिचित्रेण श्वेतच्छत्रेण शोभितं जयेति द्विजवाक्येन स्तूयमानं नृपैस्तथा दृष्ट्वा कुन्तीसुतम् ज्येष्ठमाजमीढम् युधिष्ठिरं प्रीताः प्रीतेन मनसा प्रशंसन्तु पुरे जनाः कृतोपकारस्य राज्यं दत्त्वा ममैव च प्रतिक्रियाकृतमिदम् वैशम्पायन उवाच भीष्मो द्रोणः कृपः क्षक्ता साधुः साध्वित्यभाषत श्रीवासुदेव उवाच युक्तमेतन्महाराज कौरवाणाम् यशस्करं शीघ्रमद्यैव राजेन्द्र यथोक्तम् कर्तुमर्हसि